अन्वारुरोह चाप्येनम् प्रेम्णा राजा युधिष्ठिरः अपास्य चास्य यन्तारम् दारुकम् यन्त्रसप्तमम् अभीषून्सम् प्रजग्राह स्वयम् कुरु पतिस्तदा उपारुह्यार्जुनश्चापि चामरव्यजनम् सितम् रुक्मदण्डम् बृहद्बाहुर्विरुधावप्रदक्षिणम् तथैव भीमसेनोऽपि यमाभ्यां सहितो बली पृष्ठतोऽनुययौ कृष्णम् मृत्विक्पौरजनैः सह छत्रम् शतशलाकम् च दिव्यमाल्योपशोभितम् वैडूर्यमणिदण्डम् च चामीकरविभूषितम् दधारतरसा भीमश्चत्रम् तच्छाङ्गधन्वने उपारुह्य रथम् शीघ्रम् चामरव्यजने सिते न कुलः सह देवश्च धूयमानो जनार्दनम् स र्थमामन्त्र्य गोविन्दः परिष्वद्य सुपीडितम् युधिष्ठिरम् पूजयित्वा भीमसेनम् यमौ तथा परिष्वक्तो भृशन्तैस्तु यमाभ्यामभिवादितः योजनार्थमथो गत्वा कृष्णः परपुरञ्जयः युधिष्ठिरम् समामन्त्र्या निवर्तस्वेति भारत ततो ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् उत्थाप्य धर्मराजस्तु मूर्ध्युपाघ्राय केशवम् पाण्डवो यादव श्रेष्ठम् कृष्णम् गम्यता गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ततस्तैः संविदम् कृत्वा यथावन्मधुसूदनः निवर्त्य च तथा कृच्छ्रात् पाण्डवान् सपदानुगान् स्वाम् पुरीम् प्रययौ हृष्टो यथा शक्रो मरावतीम् लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् अतृप्तमनसामेव तेषां केशवदर्शने क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः अकामा एव पार्थास्ते